नारदपुराणं पूर्वार्थम् अध्यायं ट्वेन्टिसिक्स् शनक उवाच वेदग्रहणपर्यन्तं शुश्रूषा नियतो गुरोः अनुज्ञातस्तदस्तेन कुर्यादग्निपरिग्रहं वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः अधीत्य गुरवे दत्त्वा दक्षिणां संविश्येद्वहम् रूपलावण्यसम्पन्नां सगुणां सकुलोद्भवां द्विजः समुद्वहेत्कन्यां सुशीलां धर्मचारिणीं मातृतः पञ्चमीं धीमान् पितृतः सप्तमीं तथा द्विजस् समुद्वहेत्कन्या यथा गुरुतल्पराः रोगिणीं चैव वृत्ताक्षीं सरोगकुलसम्भवाम् आदि केषामकेषां च वाचालं नोद्वहेद्बुधः कोपानां वामानां चैव दीर्घदेहां विरूपिणीम् ज्ञानाधिकाङ्गीमुन्मत्तां पिशूनां नोद्वहेद्बुधः स्थूलगुल्फां दीर्घजङ्घां तथैव पुरुषाकृतिं श्मश्रव्यञ्जनसंयुक्तां कुब्जां चैवाखेन्न च वृद्धा हास्यमुखीं चैव सदान्यगृहवासिनीं विवादशीलां भ्रमिदां निष्ठुरां नोद्वहेद्बुधः बह्वश्विनीं स्थीलदन्दां स्थूलोष्ठीं खुर्खुरस्वनम् अधिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे बुधः सदारोदनशीलां च पाण्डुराभां च कुत्सितां तास स्वासादिसंयुक्तां निद्राशीलां च नोद्वहेद अनर्थभाषिणीं चैव लोकद्वेषपरायणां परापवादनिरतां तस्करां नोद्वहेद्बुधः दीर्घनासं च किदवां तनुरुहविभूषितां गर्विधां बगवृत्तिं च सर्वधा नोद्वहेद्बुधः बालभावादविज्ञादस्वभावामुद्वहेद्यदि प्रगल्भां वा गुणां ज्ञात्वा सर्वधा तां परित्यजेत् भर्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेद परा नु कूलिनीयाज सर्वधातां परित्यजेद विवाहाश्चाष्टधात्मेया ब्राह्माद्यामुनिषत्तमा पूर्वपूर्वोवरोज्ञेयपूर्वभावे पूर्वभावे परः ब्राह्मो दैवस्तदैवार्षः प्राजापत्यस्तदा सुरः गान्धर्वो राक्षसश्चैव पिशाचश्चाष्टमो मदः ब्राह्मणे च विवाहेन वैवाह्यो वै द्विजोत्तमः दैवेनाप्यथवा विप्र केजिदार्षं प्रचक्षदे प्राजापत्यादयो विप्रविवाहाः पञ्चजगर्हितास् अभावेषु दुपूर्वेषां कुर्यादेवपरान्बुधः यज्ञोपवीदद्विदयं सोतरीयं च धारयेत् सुवर्णकुण्डले चैव धाउदव धौधवस्त्रद्वयं तथा अनूलेपनलिप्ताङ्गः कृत्तकेशनखः दारये धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम् उष्णेशममलं छत्रं पादुके चाप्युपानहौ धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः नित्यं स्वाध्याय शीलस्याद्यथाचारं समाचरे परान्नं नैव भुञ्जीद परवादं च वर्जयेत् पादेन नाक्रमेत्पादमुच्छिष्टं नैव लङ्घयेत् न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः पूज्यं देवालयं चैव नापसव्यं व्रजेद्विजः देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा नारोहे दुष्ट्रयाणं च शुष्कवादं च वर्जयेद् अन्यस्त्रियं न गच्छेत् पैशून्यं परिवर्जयेद् नापसव्यम् व्रजेद्विप्रगोश्च धानलपर्वदान् चतुष्पथं चैत्यवृक्षं द्रेवखादं नृपं तथा असूयां मत्सरत्वं च दिवा स्वापं च वर्जयेद् न वदेत्परपानि स्वपुण्यं न स्वगं नाम स्वनक्षत्रं मानं चैवादिगोपयेत् न दुर्जनैः सह वशेन्न शास्त्रं शृणुयात्तथा आसवद्युदगीतेषु द्विजस्तु न राष्टिं चरेत् आर्द्रास्ति च शूद्रं च पतितं तथा सर्पं च भक्षणं स्पृष्ट्वा सचैलं स्नानमाचरेद चिदिं च चिदिकाष्ठं च यूपं चण्डालमेव च स्पृष्ट्वा देवलकं चैव सवासा जलमाविषेद दीपः कट्वा तनुच्छायाकेशवस्रकटोदकम् अजां मार्जं निमार्जार रेणुर्दैवं शुभं हरेद प्रेद धूमं तथा शूद्रान्नभोजनं वृषलीपदिसङ्गं च दूरदः परिवर्जयेत् असच्चास्त्रार्थमननं खादनं नखकेशयोः तथैव नग्नशयनं सर्वदा परिवर्जयेत् शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेद् ताम्बूलमशुचिं नाद्यात् तथा सुप्तं नबोधयेद बोधयेद् नाशुद्धोऽग्निं परिचरेत् पूजयेद्गुरुदेवताः न वामहस्तेनैकेन पिबेद्वक्रेण वा जलं नश्चाक्रमेद्गुरोश्चायां तदाज्ञां च मुनीश्वर न निन्देद्योगिनो विप्रान् प्रथीनोऽपि यदिं तथा परस्परस्य मर्माणि न कदापि दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि उपसनं च कोतव्यं सायं प्रादर्द्विजातिभिः उपासनपरित्यागी सुरापीत्युच्यते बुधैः अयने विषुवे चैव युगादिषु दुर्श्वपि दर्शे च प्रेतपक्षे च श्राद्धं कुर्यात् गृही द्विजः मृदाहेच मृदाहे सुजनारद नाव जनारदनावधान्ये समायादे गृही श्राद्धम् समाचरेत श्रोत्रिये गृहमायादे ग्रहणे चन्द्रसूर्योः पुण्यक्षेत्रेषु तीर्थेषु गृहीश्राद्धं समाचरेद यज्ञोदानं तपोहोमस्वाध्यायः पितृस्तर्पणम् वृद्धा भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् ऊर्ध्वपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्दि केचन वृथा चारः परित्याजस्तस्माच्छ्रेयोर्चिभिर्द्विजैः इत्येवमादयो धर्मास्मृतिमार्गप्रचोदिताः कार्याद्विजादिभिः सम्यक् सर्वकर्मफलप्रदाः सदा चारपरायतु तेषां विष्णुप्रसीदधि विष्णौ प्रसन्नतां यादे किमसाध्यं द्विजोत्तम इति श्रीबृहन् नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त धर्मेषु वेदाध्ययनादिगस्य गृहस्थधर्मस्य च निरूपणं नाम षड्विंशोऽध्यायः ओम्